अथाष्टमोऽध्यायः वैशम्बायन उवाच अथापरो भीमबलश्रयाज्ज्वलन् नुपाययो सिंहविलास विक्रमः खजाञ्च दर्वीञ्च करेण धारयन्न सिञ्च कालाङ्गम कोषमवर्णम् ससूदरूपः परमेण वर्चसारविर्यथा लोकमिमम् प्रकाशयन् सकृष्टवासा गिरिराज सारवान्स्तम् मत्स्य राजम् समुपेत्य तथिवान् पम्प्रेक्ष्य राजा रमयन्नुपागतम् ततोऽ्रवीज्ञानपदान् समागतान् सिंहोन्नतांसोऽयमतीव अदृष्टपूर्वक् पुरुषोरभिर्यथा वितर्कयन्नास्य लभामि निश्चयम् तथास्य चित्तम् शपि संवितर्कयन्नर्षभस्यास्य नयामि तत्परः दृष्टैव जैनम् तु विचारयाम्यहम् गन्धर्वराजो यदि वा पुरन्दरः जानीत मम दर्शने स्थितो यदीप्तम् दल्लभताञ्चमाचिरम् विराटवाकेन च चोदिता नरा विराटस्य सुशीघ्रगामिनः उपेत्य कौन्तेय मथा ब्रुवंस्तदा यथा स राजा वदाताच्युतानुजम् ततो विराटम् समुपेत्य पाण्डवस्त्वदीनरूपम् वचनम् महामनाः उवाच सूदोऽस्मि नरेन्द्र वल्लवो भजस्त्व माम् व्यञ्जनकारमुत्तमम् विराट उवाच न सूदताम् वल्लव श्रद्धदामि ते विराजसे श्रिया रूपेण च विक्रमेण च प्रभासदे ध्रुवरो नगरेष्वि भीम उवाच नरेन्द्र जानामि सूपान् प्रथमञ्च केवलान् आस्वादिता ये नृपते युधिष्ठिरेणापि नृपेण सर्वशः बलेन तुल्यश्च न विद्यते मया नियुद्धशीरश्च सदैव पार्थिव गजैश्च सिंहैश्च समेवानहं सदा करिष्यामि तवानघप्रियम्